नारदपुराणं पूर्वार्थम् अध्यायम् 63 त्रि शौनक उवाच सुदसाधो चिरं जीव सर्वशास्त्रविशारदः यत्त्वया पायिता विद्वन्वयं कृष्णकथामृतं श्रुत्वा तु मोक्षधर्मान्वै नारदो भगवत्प्रियः सनन्दनमुखोद्गीतान् किं पप्रच्छं ततः परम् मानसा ब्रह्मणपुत्रासनकाद्या मुनीश्वराः चरन्दिलोकानन्दसिद्धा लोकोद्धरणतत्पराः नारदोऽपि महाभागनित्यं कृष्णपरायणः समागमे द्र का लोकपावनी सूद उवाच साधु पृष्ठ महाभाग्वया लोकोपकणा कथयिष्या तत्स यृ नारदर्शि श्रुत्वा सनन्दनप्रोक्तान् मोक्षधर्मान् सनातनान् नारदो भार्गवश्रेष्ठ पुनः पप्रच्छ तान्मुनीन् नारद उवाच सर्वदेवेश्वरो विष्णुर्वेदे तन्द्रे च कीर्तितः समाराध्यस्य एभा सर्वै, सर्वैः सर्वार्धकाङ्क्षिभिः कैर्मन्त्रैर्भगवान्विष्णुसमाराध्यो मुनीश्वराः के देवा, देवापूजनीयाश्च विष्णुपादपरायणैः तन्त्रं भागवदं विप्रा गुरु गुरुशिष्यप्रयोजकं दीक्षणं प्रादराद्यं च कृत्यं स्याद् यत्तदुच्यताम् यैर्मासैः कर्मभिर्यैर्वा जप्यैर्होमादिभिस्तथा प्रीयदे परमात्मा वै तद्ब्रूत मम मानदाः सुद उवाच यत श्रुत्वा वचस्तस्य नारदस्य महात्मनः सनकुमारो भगवानुवाचार्कसमद्युतिः सनकुमार उवाच नारद वक्ष्यामि तन्त्रं भागवदं तव यज्ञात्वा मलया भक्त्या साधयेद्विष्णुमव्ययं त्रिपदार्थं च दुष्पादं महातन्त्रं प्रचक्षते भोगमोक्षक्रियाचार्या क्वया पादाप्रकीर्तिताः पादार्थास्तु पशुपति पशुपाशास्त्रय एव हि पदिस्तत्र शिवो ह्ये को जीवास्तु पश्यवस्मृताः यावन्मोखादिसंयोगास्वरूपा बोधलक्षणाः तावत् पश्युत्वमेतेषां द्वैतवत् पश्य नारद पाश्चा पञ्चविधास्त्वेषां प्रत्येकं तेषु लक्षणं पश्यवस्त्रिविद्धाश्चापि विज्ञादा कलसंज्ञिकाः कल पाकलसंज्ञश्च सकलश्चेदिना मदः तत्राद्यो मलसंयुक्तो मलकर्मयुधः परः मलमायाकर्मयुधस्तृतीयपरिकीर्तितः अद्यस्तु द्विविधस्तत्र समासकलुषस्तथा असमासमलश्चेदि द्वितीयोऽपि पुनस्तथा पक्व पक्वमलेनैव द्विविधः परिकीर्तितः शुद्धेध्वनि गदा वेदौ विज्ञानप्रलया कलौ कलादितत्त्वनियदसकलः पर्यटत्ययं कर्मानुगशरीरेषु तत्तद्भुवनगेषु च पाशा पञ्च तथा तत्र प्रथमौ मलकर्मजौ मायेयश्च तिरोधानशक्तिजो बिन्दुजः परः एकोऽप्यनेकशक्तिर्दृक् याचादनको मलः तुषकञ्चुगवद्देहनिमित्तं चात्मनामिह धर्मा धर्मात्मकं कर्म विचित्र विचित्रभलभोगतम् प्रवाहनित्यं तद्बीजां कुरन्यायेन संस्थितम् इत्येतौ प्रथमौचाध माये याद्यान् शृणुद्वि च सञ्चिदानन्दविभवः परमात्मा सनातनः पदिर्जयति सर्वेषामेको बीजं विभुः परम् मनस्यदि चो न चोदे निवृत्तिं च प्रयच्छति वर्वर्ति दृक्रियारूपं तत्तेजशाम्भवं परम् शक्तो मया हरौ भुक्तो पशुगणस्य हि तच्छक्रिमाद्यामेकां तां विद्रुपाख्यां वदन्ति तयाच्चोजृम्भिदो बिन्दुर्विक्रीयात्मा शिवाभिधः अशेष तत्त्वजादस्य कारणं विभुरव्ययम् अस्मिन्नीलिनानि किल इच्छाया शक्रयस्वकम् कृत्यं कुर्वन्ति तेनेदं सर्वानुग्राहकं मुने चिज्जडानुग्रहार्थाय यस्य विश्वं सिसृक्षदः आद्योन्मेषोऽस्य नादात्मा शान्त्यादिभुवनात्मकः तच्चक्रितत्वं विप्रेन्द्र प्रोक्तम् सावयवं परं ततो ज्ञानक्रियाशक्त्योस्तथोत्कर्षापकर्षयोः प्रसरश्चाप्यभावेन तत्त्वं चैदत्सदाशिवं दृक्शक्तिर्यत्र्यद्भुदा क्रियाशक्तिर्विशिष्यते ईश्वराख्यं तु तत् तत्त्वं प्रोक्तं सर्वार्थकर्तृकं यत्र क्रियाहिन्यद्भुदाज्ञानाख्योद्रेकमश्नुते तत्तत्त्वं चैव विद्याख्यं ज्ञानरूपं प्रकाशकं नादो बिन्दुश्च सकलसदाख्यं तत्त्वमाश्रितौ विद्येश्च पुनरैष्यं तु मन्त्रा विद्याभितं पुनः इमानि चैव तत्त्वानि शोद्धाध्वेति प्रकीर्तितं साक्षान्निमित्तमी श्रोत्रेत्युपादानस बिन्दुराट पञ्चानां कालराखित्या क्रमो नास्तीति निश्चितं व्यापारवसदो ह्येषां वस्तुद ख्यम चिंत्रच्त्ति विहिता खलु कलना चीजनुग्रहाय कृवा रूपी वै प्रभु अनादिमुद्र कुरुतेऽनुग्रहं चिदां मुक्तिं च विश्वेषां स्वव्यापारे समर्थेतां विधत्ते जडवर्गस्य सर्वानुग्राहकः शिवः शिवः सामान्यरूपो हि मोक्षस्तु चिदनुग्रहः सोनादित्वात् कर्मणो हि तत्तद्भोगं विना भवेद तेनानुग्राहकशम्भुस्तद्भुक्रियै प्रभुर्व्ययः कुरुदे सूक्ष्मकरणभुवनोत्पत्तिमञ्जस कर्तोपादानकरणैर्विना कार्येण दृश्यते शक्तयकरणं चात्र पादानमिष्यदे। नित्यैका च निधना सदी। साधारणे नराणां वै भुवनानां च कारणं स्वभावान्मोहजननी स्वचिता जनकर्मभिः विश्वी सूक्ष्मा परामाया विकृतैः परतु कर्माण्यावेक्ष्य विद्ये सो मायां विक्षोभ्यशक्तिभिः विधत्ते जीवभोगार्थं वपुंषिकरणानि च सृजत्यादो कालतत्त्वं नानाशक्तिमयी च सा भाविभूतं मवञ्चेदं जगत्कलयदे लयं सुदेक्ष्यनन्तरं माया शक्तिम् नियमनात्मिकां सर्वं नियमयत्येषा तेनेयं नियति स्मृता अनन्तरं च सामाया नित्या विश्वविमोहिनी अनादिनिधनादत्वं कलाघ्यं जनयत्यपि एकतस्तु नृणां येन कालयित्वा मलं ततः कर्तृशक्तिं व्यञ्जयदि तेनेदं तु कलाभितं कालेन च नियत्योपसर्गतां समुपेतया व्यापारं विदधात्येषा भूपर्यन्तं स्वयी स्वकीयकं प्रदर्शनाथवैपुंसो विषयाणां च सा प्रकाशरूपं विद्याख्यं तत्त्वं सूदे कलैव हि विद्यात्वावरणं भित्वा ज्ञानचक्रेष्वकर्मणा विषयान् दर्शयत्येषात्मनां सा कारणं ह्यदः करोति भोग्यं ज्ञानसौ करणेन परेण उद्बुद्धशक्तिपुरुषप्रचोद्यमहदाधिकन् भोग्ये भोगं च भोक्तारं तत्परं करणं तु सा भोग्यस्य भोग्यधिर्मा साञ्चिद्व्यक्तिर्भोग उच्यते सुखादिरूपो विषयाकारा बुद्धिर्समासदः भोग्यं भोक्तुश्च स्वेनैव विद्याख्यं करणं तु यद्यर्कवत्प्रकाशाद्भिकर्मत्वाञ्च तथाभिः करणां तरसापेक्षाशक्ता ग्राहयितुं शतं सम्बन्धात् करणाद्यैस्तद्भोगौत्सुक्येन चोदनाद् तञ्चष्ठा फलयोगाच संसिधा कर्तृत् आकर्तृत्वाभ्युपग भोक्तृत्वाख्यादु किंज प्रधानचरतम व्यर्थ तद कर्तृर पुंसी करणाद्य भोगस्यासम्भवस्तस्मात् स एवात्र प्रवर्तकः करणादिप्रयोक्तृत्वम् विद्यैवास्य सम्मतम् अनन्तरं कलाराङ्गं सुदे भिद्यङ्गरूपकं येन भोग्याय जनिता भिद्यङ्गे पुरुषे पुनः क्रियाप्रवृत्तिर्भवति तेनेदं रागसंज्ञकं येभिस्तत्त्वैश्च भोक्तृत्वदशायां कलितो यदा नित्यस्तदायमात्मादुलभते पुरुषाभिथाम् कलैव प्रचादव्यकृतं सुदे भोग्याय चास्य तु सप्तग्रन्थिविधानस्य यत्तद्गौणस्य कारणं गुणानामवि भागोत्र ह्याधारेक्ष्मादिभागवत आधारोऽपि च यत्तेषाम् तदव्यक्तं च गीयते त्रययेव एव गुणाह्यषामव्यक्तादेव संभवः स रजस्तमः प्रख्या व्यापार नियमात्मिका गुणदोधिश्च विषयाध्यवसायस्वरूपिणी गुणतस्त्रिविधा साभिप्रोक्ता कर्मानुसारदः महस्तवादहङ्कारो जातसंरम्भवृत्तिमान् शम्भो दादस्य विषय प्राप्नो दिव्यवहार्यतां सत्त्वा द्विगुणभेदेन स पुनस्त्रिविधो भवेद् तैजसो राजसश्चैव तामसश्चेदि नामदः तत्र तैजसदो ज्ञानेन्द्रियाणि मनस्सा सह प्रकाशान्वयतस्तस्माद् बोधकानि भवन्ति हि राजसाञ्चक्रिया कर्मेन्द्रियाणि तु तामसाञ्चैव जायन्ते तन्मात्राभूदयो नयः इच्छारूपं च सङ्कल्पव्यापारं तत्र वै मनः द्विधाधिकारि तञ्चित्तं भोक्तृभो गोपपादकं बहिकरणभावेन सोचितेन यतः इन्द्रियाणां च सामर्थ्यं सङ्कल्पेनात्मवृत्तिना करोत्यन्तस्थितम् भूयस्ततोऽन्धःकरणं मनः मनोऽहङ्कारबुद्ध्याख्यमस्त्यन्धकारणं दृधा इच्छा संरम्भभोधाख्यावृतयक्रमदो ज्ञानेन्द्रियाणि श्रोत्रं त्वक्चक्षुर्जिह्वा च नासिका द्राह्याश्च विषया ह्येषां ज्ञेया शब्दादयो मुने शब्दस्पर्शरूपरसगन्धाः शब्दादयो मदाः वाक्पाणि पदपायूपस्थास्तु वचनादानगमनोत्सर्गान्नं तेषु कर्मसु करणानि च सिद्धिना न कृधिकरणैर्विना दशधा करणैश्चेष्टं कार्यमाविश्य कार्यते चेष्टं ते कार्यमालम्ब्य विभुत्वात् करणानि तु तन्मात्राणि तु कवायुस्तेजोऽम्भः क्ष्मेदि पञ्च वै तेभ्यो भूदान्येग भवन्ति हि यदि पञ्च सुशब्दोऽयं स्पर्शो भूतचतुष्टये रूपं त्रिशु रसश्चैव द्वयो गन्धः क्षितौ तथा कार्याण्येषां क्रमेणैववकाशो व्यूहकल्पनं पाकश्च सङ्ग्रहश्चैव धारणं चेदि कथ्यते आशीतोष्णौ महावाद्यौ शीतोष्णौ वारिते जसोः भास्वदग्नौ जले शुक्लं शुक्लाद्यने कथा। रूपं त्रिशु त्रिषु रस्सोम्भःसु मधुरषड्विधः क्षितौ गन्धः क्षिदावसुरभिः सुरभिश्च प्रकीर्तितः तन्मात्रं तद्भुतगुणं करणं पोषणं तथा भूतस्य तु विशेषोऽयं विशेषरहितं तु तत् इमानि पञ्चभूतानि संनिविष्टानि सर्वतः पञ्चभूतात्मकं सर्वं जगस्तावरजङ्गमं शरीरसन्निविष्टत्वमेषां तावन्निरूप्यते दे। देहेऽष्टिमांस केश्च त्वन्नखदन्ताश्च पार्थिवाः मूत्र कपस्वेद शुक्रादिषु जलस्थितिः हृदि पङ्क्तौ दृश्योः पित्ते तेजस्तद्धर्मदर्शनात् प्राणादिवृत्तिभेदेन वायुश्चैवात्र संस्थितः वियत्सर्वासु नाडीषु गर्भवृत्त्यनुषङ्गतः प्रयो क्रियादिमहि प्रान्तमेधदण्डार्थसाधनं प्रत्यात्मनियतं भोगभेदो व्यवसीयते तत्त्वान्येवं कलाद्यानि प्रतिपुं नियतानि हि देहेषु कर्मवशद सर्वेषु विचरन्ति हि माये यश्चैव पाशोऽयं येनावृतमिदं जगद अशुद्धाध्वा मदोह्येष धरण्यादिकलावधिः तत्र भूमण्डलस्थोऽसौ स्थावरो जङ्गमात्मतः स्थावर गिरिवृक्षाद्य जङ्गमस्त्रिविद्धः पुनः स्वेदजाश्चाण्डजाश्चैव तथैव च जरायुजाः चराचरेषु लक्षाणां चतुराशीरियोनयः भ्रममाणस्थेषु जीवः कदाचिन्मानुषं वभुः प्राप्नोति कर्मवशदपरं सर्वार्थसाधकम् तत्रापि भारते खण्डे ब्राह्मणादिकुलेषु च महापुण्यवशेनैव जनिर्भवति दुर्लभा जनिश्च पुंस्त्री यो योगशुक्रशोनितयोगतः बिन्दुरेकप्रविशदि यदा गर्भे द्वयात्मकः तदारज्योधिके नारी भवेद्वेदोऽद्धिके पुमान् मलकर्मादिपाशेन कश्चिदात्मा नियन्त्रितः जीवभावं तथा तस्मिन् सकलप्रतिपद्यते अथ तत्र कृतैर्मात्रा पानान्नाद्यैश्च पोषितः पक्षमासादिकालेन वर्धते वपुरत्र हि दुःखाद्यपीडितश्चैववाच्छन्न देहो चरायुणा एवं तत्र स्थितो गर्भे शुभाशुभं स्मरं तिष्ठति दुःखात्मा पीड्यमानो मुहुर्मुहुः कालक्रमेण बालोत्सौ मादरं पीडयन्नपि पी सम्पीडितो निःसरति यो नियन्त्रादवाङ्मुखः क्षणं तिष्ठति निश्चेष्टस्तदो चोदितुमिच्छति पदक्रमेण स शिशुर्वर्धमानो दिने दिने बाल बालपौगण्डभेदेन युवत्वं प्रतिपद्यते एवं क्रमेण लोकेऽस्मिन् देहिनां देहसम्भवः मानुषं दुर्लभं प्राप्य सर्वलोकोपकारकम् यस्तार यदि नात्मानं तस्मात् पापतरोत्र कः सर्वेषां च सर्वेषां साधारणमितीरितं च दुःष्वेवानुरक्तो यः समूर्खो ह्यात्मधाधकः मनुष्याणामयं धर्मः रवबन्धश्चेदनात्मकः पाश्चबन्धनविच्छेदो दीक्षयैव प्रजायते अधो बन्धनविच्छित्यै मन्द्रदीक्षां समाचरेत् दीक्षा ज्ञानाख्यया शक्त्या स्यापध्वंसितबन्धनः शुद्धात्मतत्त्वनामासौ निर्वाणपदमश्नुते स्वशक्रियात्मिकया दृष्ट्या शिवं ध्यायदि पश्यति यजदे शिव मन्त्रैश्च स्वपरेषा हितायसः शिवार्थशक्तिदीधित्या समर्धीकृतचिदृशा शिवशक्त्यादिभिः सार्धं पश्यत्यात्मगदावृतिः अन्धकरणृत्तिर्या बोधाख्या सा महेश्वरम् न प्रकाशयितुं शक्दा पाशत्वान्निगडादिवद दीक्षैव परमो हे दुःपाशविच्छेदने पुनः अधशास्त्रोक्तविधिना मन्त्रदीक्षां समाचरेदीक्षितस्तन्त्रविधिना स्ववर्णाचारदत्परः अनुष्ठानम् प्रगुर्वीदनित्यनैमित्तिकात्मकं निजवर्णाश्रमाचारान् मनसापि न लङ्घयेत् यो यस्मिन् आश्रमे तिष्ठन्ति दीक्षां प्राप्नोति मानवः स तस्मिन् आश्रमे तिष्ठेत्तद्धर्माननुपालयेत् कृतान्यपि न कर्माणि बन्धनाय भवन्ति हिकं तु फलदं कर्म मन्त्रानुष्ठानसम्भवं दीक्षितोऽभिलष्य भोगान्यद्यल्लोकगदानसौ मन्त्राराधनसामर्थ्यात् तद्भुक्त्वा मोक्षमश्नुते नित्यं नैमित्तिकं दीक्षां प्राप्य यो नाच्छरः कञ्चित्कालं पिशाच त्वं प्राप्यां ते मोक्षमश्नुते दे तस्मात्तु दीक्षितकुर्या नित्यनैमित्तिकाधिकम् अनुष्ठानं च ते नस्य दीक्षां प्राप्यानुमीयते नित्यनैमित्तिकाचारपादकस्य नरस्य तु दीक्षावैकल्यविरहास्तो मुक्तिस्तु जायते त्रा गुक्त गतिर्भव नीक्षया गुरमूर्तिसर्वाग्राक शिव दृष्टायात्रिमातेफल तित्त पदे पदे कायन मनसा वाचा गुरभक्ति पर चायित भवन सिस पदे पदे शिष्ये गुरभक्ु शिष्यवेदक मिथ्या प्रयुक्त मंत्रस्तु प्राचिती भुरुबृहारदीयपुराणे पूर्वभागे त्रिशष्टितमोध्यायः बृहदुपख्यातमोध्याय